कृष्णयजुर्वेदकाठकं प्रश्नं त्रि हरिः ॐ तुभ्यन्ता अङ्गिरस्तमाश्यामतं काममग्ने आशानां त्वा विश्वा आशाः अनु नोद्यानुमदिरन्विदनुमदे त्वं कामो बोधस्य कामस्तदग्रे ब्रह्मजज्ञानं पिता विराजा यज्ञो रायोऽयं यज्ञः आपोभद्रा आदि पश्यामि तुभ्यं भरन्ति यो देह्यः पूर्वं देवा अपरेण प्राणापानौ अव्यवाहगुस्विष्ठं देवेभ्यो वै स्वर्गो लोकस्थिरो भवद ते प्रजापदिमब्रुवन् प्रजापदे स्वर्गो वै नो लोकस्थिरोभूद तमन्विच्छेदि तैयज्ञक्रतुभिरन्वैच्छद तैयज्ञक्रतुभिर्नान्वविं तद तमिष्ठिभिरन्वैच्छद तमिष्टिभिरन्वविं तदिष्ठीनामिष्ठित्वं यष्ठयो हवैनामा वै नाम तायिष्ठय इत्याचक्षदे परोक्षेण परोक्षप्रिया इव हि देवाः तमाशाब्रवीद प्रजापद आशया वैश्राम्यसि अहमो वा आशास्मि मानु यजस्व अधदे सत्याशा भविष्यदि अनुस्वर्गलोकम् वेत्स्यसीति स ह्येदमग्नये कामाय पुरोडाशमष्टाकपालं का निरवपद आशायै चरुम् अनुमत्यै चरुं तदो सत्याशा भवद अनुस्वर्गल्लोकमविन्दद सत्याः वा अस्या भवति अनुस्वर्गं लोकं विन्ददि ये य उचै देवं वेद सोत्र जुहोदि अग्नये कामाय स्वाकाशायै स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टहृदे स्वाहेति तं कामोऽ ब्रवीद प्रजापदे कामेन वै श्रम्यसि अकमो वै कामोऽस्मि मान्नु यजस्व अथ ते सद्य कामो भविष्यति अनुस्वर्गल्लोकं वेत्स्यसीति स यदमग्नये कामाय पुरोडाशमष्टाकपालं का निरवपद कामाय चरुम् अनुमत्यै चरुं ततो कामो भवद अनुस्वर्गल्लोकमविन्दद का सत्योः वा अस्य कामो भवति अनुस्वर्गल्लोकं विन्दति य एते न हविषायजदे य उचैन देवं वेद श्रोत्रजुहोदि अग्नये कामाय स्वाहा कामाय स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये स्विष्टकृते स्वाहेति त्वं ब्रह्मा प्रजापदे ब्रह्मणा वैश्राम्यसि अहमु वै ब्रह्मास्मि माम्नु यजस्व अधदे ब्रह्मण्वान्यज्ञो भविष्यदि अनुस्वर्गं लोकम् वेस्यसीति स एदमग्नये कामाय पुरोडाशमष्टाकपालम् का निरवपद ब्रह्मणे चरुम् अनुमत्यै चरुं तदो वैतस्य ब्रह्मण्वान् यज्ञो भवद अनुस्वर्गं लोकमविन्दद ब्रह्मण्वान् हव अस्य यज्ञो भवति अनुस्वर्गलोकं विन्दति य एतेन हविषा यजते य उच्चैनदेवं वेद श्रोत्रजुहोधि अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तयज्ञो ब्रवीद प्रजापदे यज्ञेन वैश्राम्यसि अहमो वै यज्ञोऽस्मि मान्नो यजस्व अथ ते सत्यो यज्ञो भविष्यदि अनुस्वर्गलोकं वेस्यसीति स यदमग्नये कमाय पुरोडाशमष्टाकपालं निरवपद यज्ञायचरुम् अनुमत्यै चरुं तदो वै तस्य सत्यो यज्ञो भवद अनुस्वर्गं लोकमविन्दद सत्योह वा अस्य यज्ञो भवति अनुस्वर्गं लोकं विन्ददि येतेन हविषा यजते य उचैन देवं वेद स्रोत्रजुहोदि अग्नये कामाय स्वाहा यज्ञाय स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तमापो ब्रुवन् प्रजापदेप्सु वै सर्वे कामाश्रिताः वयमु वा आपस्मः अस्मान्नु यजस्व अध त्वयि सर्वे कामाश्रयिष्यन्ते अनुस्वर्गं लोकं वेत्स्यसीति स एदमग्नये कामाय पुरोडाशमष्टाकपालं अभ्यश्चरुन् अनुमत्यैचरुन् तदो वैतस्मिन् सर्वे कामा अश्रयन्त अनुस्वर्गं लोकमविन्दद सर्वे भव अस्मिन् कामाश्रयन्ते अनुस्वर्गं लोकम विन्दति य एते न भविष्यायजते य उचै देवं वेद श्रोत्रजुहोति अग्नये कामाय स्वाहाभ्य स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तमग्निर्बलिमानब्रवीद प्रजापदे वै बलिमदे सर्वाणि भूतानि बलिगुं हरन्ति अहमु वा अग्निर्बलिमानस्मि मान्नु यजस्व भूतानि बलिगुं अनुस्वर्गं लोकं वेस्यसीति सयेदमग्नये कामाय पुरोडाशमष्टाकपालं निरभपद अग्नये बलिमदे चरुम् अनुमत्यै चरुं तदो वै तस्मै सर्वाणि भूतानि बलिमहरन् अनुस्वर्गल्लोकमविन्दध सर्वाणि इह अस्मै भूतानि बलिगुं अनुस्वर्गल्लोकं विन्दति यये तेन हविषा यजदे य उचै न देवं वेद श्रोत्रजुहोधि अग्नये कामाय स्वाहाग्नये बलिमदे स्वाहा अनुमत्यै स्वाहा अनु प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेधि तमनुवित्तिरब्रवीद प्रजापदे स्वर्गं वै लोकमनुविवत्ससि अहमु वा अनुवित्तिरस्मि मान्नु यजस्व अददे सत्यानुवित्तिर्भविष्यदि अनुस्वर्गलोकं वेस्यसीदि स येदमग्नये का मायपुरोडाशमष्टाकपालं निरवपद अनुवित्यैचरुम् अनुमत्यै चरुं तदो वैतस्य सत्यानुवित्तिरभवद अनुस्वर्गल् लोकमविन्दद सत्याह वा अस्यानुवित्तिर्भवति अनुस्वर्गं लोकं विन्दति येतेन हविषा यजदे यै स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तावा यदा सप्त स्वर्गस्य लोकस्य द्वारः दिवस्य न नाम अशा प्रथमा गुं रक्षति कमो द्वितीयां ब्रह्मतृतीयां यज्ञश्चतुर्धिम् आभपञ्चमीम् अग्निर्बलिमान्षष्ठीम् अनुवित्ते सप्तमीम् अनुभवैस्वर्गल्लोकं विन्दति कामचारोऽस्य स्वर्गे लोके भवति येदाभिरिष्टिभिर्यजते य उच्चैना एवं वेद तास्वन्विष्टि पष्ठौ हि वरां दध्याद कगुंसञ्च स्त्रीयै चाभारगुम् समृद्ध्यै तपसा देवा देवदामग्र आयन् तपसर्ष यः स्वरन्वविन्दन् तपःसा सपत्नान् येनेदं विश्वं परिभूद यदस्थी प्रथमजं देवगुम्हविषा स्वयं भु ब्रह्मपरमं स एव पुत्रस्य पिता स माता तपोह यक्षं प्रथमघुं सम्बभूव श्रद्धया देवो देवत्वमश्नुते श्रद्धा लोकस्य देवी स नो जुषाणोपयज्ञमागाद दुहाना श्रद्धा प्रथमजारुदस्य विश्वस्य भर्तृ जगदप्रतिष्ठा तागुश्रद्धा गुम्हविषा त्यजामहे सा नो लोकमृतं ददातु ईशाना देवी भुवनस्याधिपत्नी आगात् सत्यगुम्हविरुदं जुषाणं यस्माद्देवा जज्ञि रे भुवनं च विश्वे तस्मै विधेमहविशा hmm. कृतेन यथा देवै धमदमदेम यस्य प्रदिष्ठोर्वन्तरिक्षं यस्मादेवाजज्ञि रेभुवनं च सर्वे तत्सत्यमर्चदुपयज्ञन्न आगाद ब्रह्मभूदिरुपमोदमानं मनसो वशे सर्वमिदम् बभूव नान्यस्य मनो वशमन्वियाय भीष्मो हि देवसखसः सखीयान् स नो जुषाण उप यज्ञमागाध आकूतीनामधिपदिं च दशाञ्च सङ्कल्प ज्योतिं देवं विपष्ठिं मनो राजानमिह वर्धयन्तः उपहवेश्य सुमदौ स्याम शरणं पवित्रं विततं पुराणं येन पूतस्तरदि दुष्कृतानि तेन पवित्रेण शुद्धेन पूताः अधि पाप्मानमराधिं लोकस्य द्वारमर्चिमत्पवित्रम् ज्योतिष्मद्भ्राजमानं महस्वद अमृतस्य धारा बहुधा दोहमानम् चरणम् नो लोके सुधिताम् दधातु अग्निर्मूर्धा भुवः अनु नो ज्ञानुमतिरन्विदनुमदेत्वम् अव्यवाहगस्विष्ठम् देवेभ्यो वैस्वर्गो लोकस्थिरोभवद ते प्रजापदिमब्रुवन् प्रजापदे स्वर्गो वै नो लोकस्थिरोऽभूद तमन्विच्छेदी तयज्ञक्रदुभिरन्वैच्छद तयज्ञक्रदुभिर्नान्वविन्दद तमष्टिभिरन्वैच्छद तमिष्टिभिरन्वविन्दद तदिष्ठीनामिष्ठित्वं यष्टयो ह इत्याचक्षदे परोक्षेण परोक्षप्रिया इव हि देवाः तं तपो ब्रवीद प्रजापदे तपसा वैश्राम्यसि अहमु वै तपोऽस्मि अधदे सत्यं तपो भविष्यति अनुस्वर्गल्लोकं वेस्यसीति स एतमाग्नेयमष्टाकपालं निरववद तपसे चरुम् अनुमत्यैचरुं तदो वै तस्य सत्यं तपो भवद अनुस्वर्गल्लोकमविन्दद सत्यगुंहव अस्य तपो भवति अनुस्वर्गं लोकं विन्दधि य ये ते न हविषायचते य उचै न देवं वेद श्रोत्रजुहोदि अग्नये स्वाहा तपस्ये स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तग् श्रद्धा ब्रवीद प्रजापदे श्रद्धया वैश्राम्यसि अहमो वै श्रद्धास्मि मान्यजस्व अधदे सत्या श्रद्धा भविष्यति अनुस्वर्गल्लोकं वेस्यसीदि स येदमाग्नेयमष्टाकपालं ये निरपपत श्रद्धायै चरुम् अनुमत्यै चरुं ततो वै तस्य सत्या श्रद्धा भवद अनुस्वर्गल्लोकमविन्दद सत्या कवा अस्य श्रद्धा भवति अनुस्वर्गल्लोकं विन्ददि ययेते न कविषायजदे य उचै न देवं वेदा सोत्रजुहोदि अग्नये स्वाहा श्रद्धायै स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेधि तगुं सत्यमब्रवीद प्रजापदे सत्येन वैश्राम्यसि अहमो वै सत्यमस्मि मा नु यजस्व अथ दे सत्यगुं सत्यं भविष्यति अनुस्वर्गं लोकं वेत्स्यसीति स एदमाग्नेयमष्टाकपालं निरवपद सत्यायचरुम् अनुमत्यैचरुं तदो वै तस्य सत्यगुं सत्यमभवद अनुस्वर्गं लोकमविन्दद सत्यगुं हवा सत्यं भवति अनुस्वर्गं लोकं विन्दति येतेन हविषा यजते य उच्चैन देवं वेद श्रोत्रजुहोदि अग्नये स्वाहा सत्याय स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृदे स्वाहेति तं प्रजापदे मनसा वैश्राम्यसि अहमु वै मनोऽस्मि मानु यजस्व अधदे सत्यं मनो भविष्यति अनुस्वर्गल्लोकं वेत्स्यसीति स एदमाग्नेयमष्टाकपालं निरवपद मनसे चरुम् अनुमत्यै चरुं तदो तस्य सत्यं मनो भवद अनुस्वर्गं लोकमविन्दद सत्यगं हवा अस्य मनो भवति अनुस्वर्गं लोकं विन्ददि उच्चैनं देवं वेद श्रोत्रजुहोति अग्नये स्वाहा मनसे स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति तं चरणमब्रवीद प्रजापदे चरणेन वैश्राम्यसि अहमु वै चरणमस्मि मा नु यजस्व अध ते सत्यं चरणं भविष्यदि अनुस्वर्गल्लोकं वेत्स्यसि सयेद माग्नेयमष्टाकपालं निरवपद चरणाय जरुम् अनुमत्यजरुं तदो वै तस्य सत्यं चरणमभवद अनुस्वर्गं लोकमविन्दद सत्यगुं ह अस्य चरणं भवति अनुस्वर्गं लोकं विन्दति यये तेन हविषाय ज देवं दे वेद श्रोत्रजुहोति अग्नये स्वाहा चरणाय स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्विष्टकृते स्वाहेति ताव यदा पञ्च स्वर्गस्य लोकस्य द्वारः अपाख अनुवित्तयो नाम तपः प्रथमा गुं रक्षति श्रद्धा द्वितीयां सत्यं तृतीयां मनश्चदुद्धीं चरणं पञ्चमीम् अनुह वै विन्दति कामचारोऽस्य स्वर्गे लोके भवति य एताभिरिष्टिभिर्यजदे य उचैना एवं वेदा तास्वन्विष्ठि पष्ठौ हि वरां दद्यात्कघं सञ्च स्त्रियै चाभारगं समृद्ध्यै ब्रह्म वै चतुर्होतारः चतुर्होदृभ्योऽधियज्ञो निर्मिदः नैनगुंशब्दम् ना नाभिचरितमागच्छति य एवं वेद वेद अधो पञ्चहोद्रुत्वं सर्वाःस्मै दिश होदा दश होधृणां पृथिवी होदा चतुर्हो धॄणाम् अग्निर्होदा पञ्चहोदृणां महाहविर्होदा सप्तहोधृणां यद्वै चतुर्होदृणां चतुर्होदृत्वम् अधोपञ्चभोदृत्वं सर्वास्मै दिश कल्पन्ते य एवं वेदा एषा सर्वविद्या एतद्भ्येषं ये येषा पङ्क्तिस्वर्गस्य लोकस्यां जसा यनिस्सुतिः येदान् योध्यैत्यच्छदिर्दर्शे यावत्तरसं स्वरेति न बभ्रवः सर्वमायुरेदि विन्ददे प्रजाम् राजस्पर्शम् गौपत्यम् ब्रह्मवर्चसि भवति येदान् योद्धैति स्पृणोत्यात्मानम् प्रजाम् विधृन् येदान् वा अरुणा अपवेशिर्विदाञ्चकार येदैरधिवादमपाजयद अधो विश्वम् पाप्मानम् स्वर्ययौ यदा योध्यैदि अधिवादं च अधो विश्वम् पाप्मानं स्वरेदि यदैरग्निं चिन्वीदः स्वर्गकामः यदैरायुष्कामः प्रजापशुकामो वाक् पुरस्ताग्दशहोतारमुदञ्चमुपदधादि यावत्पदं हृदयै यजुषि पत्न्यौ च दक्षिणधः प्राञ्चं चतुर्होतारं पश्चादुदञ्चं पञ्चहोतारम् उत्तरधः प्राञ्चगुं षड्ढोतारम् सप्तहोतारं हृदयै यजुगुंषि पत्न्यश्च यथावकाश्यं ग्रहान् यथावकाश्यं प्रदिग्रहान् लोकं पृणाश्च सर्वा हास्यैता देवता प्रीता अभीष्टा भवन्ति सदेवमग्निं चिनुते रथ संमिधश्चेतव्यः वज्रो वै रथः वज्रणैव पाप्मानं भ्रातर्व्यग्रस्तृणुते पक्षः संमिदश्चेतव्यः यदा वान्वैरथः यावत्पक्षः रथ संमिदमेव चिनुते इमेव लोकं पशुबन्धेनाभिजयधि अधो अग्निष्ठो अन्तरिक्षमुब्ध्येन स्वरधिरात्रेण सर्वान् लोकानहीनेन अधो सत्रेण वरो दक्षिणा वरेणैव वरग् स्पृणोदि आत्मा हि वरः एकविगुंशतिर्दक्षिणा ददादि एकविगुंशो वा लोकः प्रस्वर्गल्लोकमाप्नोति असावादित्य एकविगुंसः अमुमेवादित्यमाप्नोदि शतं ददाति शदायुः पुरुषशतेन्द्रियः आयुष्यवेन्द्रिये प्रतिष्ठति सहस्रं ददाति सहस्रसंमिदस्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै अन्विष्टकं दक्षिणा ददाति सर्वाणि वयागंसि सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै यदि मन्थानेदावदो दद्यादो दनान्वा अश्नुदेतं कामं यस्मै कामायाग्निष्ठीयते स्पष्टौ हीं त्वं दर्वदीं दद्याद सा हि सर्वाणि वयागुंसि सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै हिरण्यं ददाति हिरण्यज्योतिरेव स्वर्गं लोकमेधि वासो ददाति तेनायुप्रदिदते वेदि तृदीयेयतेद त्रिशत्या हि देवाः स सत्यमग्निं चिनुदे तदेतत् पशुबन्धे ब्राह्मणं ब्रूयाद नेतरेषु यज्ञेषु यो ह वै चतुर्होदृननुसवनम् तर्पयितव्यान् वेद तृप्यदिप्रजया पशुभिः उपैनगुंसोमपीधो नमदि ये दे वै चतुर्होदारोऽनुसवनम् तर्पयितव्याः ये ब्राह्मणा बहुविदः तेभ्यो यद्दक्षिणा नयेद दुरिष्ठगृस्याद अग्निमस्य वृञ्जीरन् तेभ्यो यथा श्रद्धं तद्ध्याद स्विष्ठमेवैतत्क्रियते नास्याग्न्यौ वृञ्जते हिरण्येष्टको भवति यावदुत्तममङ्गुलिकाण्ठं यज्ञपरुष संमिदं तेजो हिरण्यं यदि हिरण्यं न विन्देद शर्करा आक्ता उपदध्याद तेजो हृदं स तेजसमेवाग्निं चिनुदे अग्निञ्चित्वा सौ मण्या यजेत मैत्रावरुण्या वा वा यष व्यर्ध्यते योऽग्नेिनुदे यावदेव वीर्यं तदस्मिन् दधाति युज्यगं सलोकतामाप्नोदि यदा सा मेव देवतानागुंसायुज्यन् साष्टिता गुंसमानलोकदामाप्नोदि यदमग्निं चिनुदे य उचैनमेवं वेद ये तदेव अधो नाजिकेते यच्चा मृदयच्च यच्च प्राणि यच्चन सर्वास्था इष्टका कृत्वा उपकामदुःखा दधे तेन हर्षिणा तेन ब्रह्मणा तया देवतया गिरस्वध्रुवासीत सर्वा सर्वान् पुगुं सः सर्वं न स्त्री पुंमञ्च यद सर्वास्थाः यावन्तः पागुंस वो भूमेः सङ्ख्यादा देवमायया या या या सर्वास्थाः यावन्त उषाः पशूनाम् पृथिव्याम् पुष्टिर्हिताः सर्वास्थाः यावती सर्वाः अप्स्वन्तश्च या श्रुताः सर्वास्थाः यावती शर्करा धृत्यै अस्याम् पृथिव्यामधि सर्वास्थाः यावन्तोऽस्मानोऽस्याम् पृथिव्याम् प्रदिष्ठा सुप्रतिष्ठिताः सर्वास्थाः यावद्विरुध सर्वाः विष्ठिता पृथिवीमनु सर्वास्थाः यावतीरोषधी सर्वाः विष्ठिता पृथिवीमनु सर्वास्थाः यावन्दो वनस्पतयः अस्याम् पृथिव्यामधि सर्वास्थाः <ěl> यावन्तो ग्राम्या पशवः सर्वे आरण्याश्च ये सर्वास्थाः ये दुष्पादः अपाद उदरसर्पिणः सर्वास्ताः यावदाञ्जनमुच्यते देवत्रायच्च सर्वास्थाः यावत्कृष्णाय सगं सर्वं देवत्रा सर्वास्थाः यावल्लोहाय सगं सर्वं सर्वास्थाः सर्वगंसि सगं सर्वं तृपु देवत्रा यच्चमानुषम् सर्वास्ताः सर्वगं हिरण्यगं रजदम् सर्वास्ताः सर्वगं सुवर्णगं हरिदं देवत्रा यच्चमानुषं सर्वास्थायिष्टका कृत्वा तेनर्षिणा तेन ब्रह्मणा तया देवतया गिरस्वध्रुवासीद सर्वा दिशो दिक्षु यच्चान्तर्भोधं प्रतिष्ठितं सर्वास्ता इष्टका कृत्वा उपकामदुःखा दधे तेनर्षिणा तेन ब्रह्मणा तया देवतया गिरस्वध्रुवासीद अन्तरिक्षं जगेवलं यच्च अस्मिन्नन्तराहितं सर्वास्ताः आन्तरिक्ष्यश्च याः प्रजाः गन्धर्वाक्सरसश्च ये सर्वास्ताः सर्वानुदारान् सलीलान् अन्तरिक्षे प्रतिष्ठितान् सर्वास्ताः सर्वानुदारान् सलिलान् स्थावरा प्रोक्ष्याश्च ये सर्वास्थाः सर्वान् धुनिगुं सर्वान् ध्वगुंसान् हिमो यच्च शीयते ये सर्वास्थाः सर्वान् मरीचीन् विततान् निहारो यच्च क्षीयते ये सर्वास्ताः सर्वा विद्युदसर्वान् स्तनयित्नोन् ह्राधुनिर्यच्च क्षीयते ये सर्वास्थाः सर्वास्रवन्दीसरितः सर्वमप्सुचरन् च यद सर्वास्ताः याश्च कोप्या याश्च नाद्याः समुद्रियाः याश्च वैश्यन्ति रुदत्रा सचीर्याः सर्वास्थाः ये चोत्तिष्ठन्ति जीमूताः याश्च वर्षन्ति वृष्टयः सर्वास्थाः तपस्ते च आकाशम् यस्याकाशे प्रतिष्ठितम् सर्वास्ताः वायुं वाय। वयागुंसि सर्वाणि अन्तरिक्षचरम् च यद सर्वास्ताः अग्निगम् सूर्यम् चन्द्रम् मित्रम् वरुणम् भगम् सर्वास्ताः सत्यग्श्रद्धाम् तपोदमम् नामरूपम् च सर्वास्था इष्टका कृत्वा उपपामदुःखा दधे तेनर्षिणा तेन ब्रह्मणा तया देवतया गिरस्वध्रुवासीद सर्वान् दिवगम् सर्वान देवान् दिवि यच्चान्दर्भोदम् प्रधिष्ठितम् सर्वास्था इष्टका कृत्वा उपकामदुःखादथे तेन हर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वध्रुवासीद यावती सर्वाः विददालोचने दिवि सर्वास्ताः रुचो यजोगुंषि सामानि अधर्वाङ्गिरसश्च ये सर्वास्ताः इतिहासपुराणं च सर्पदेव जनाश्च ये सर्वास्ताः ये च लोका ये चालोकाः अन्तर्भूतं प्रतिष्ठितं सर्वास्ताः यच्च ब्रह्म यच्चा अब्रह्म अन्तर्ब्रह्मन् प्रतिष्ठितं सर्वास्ताः अहोरात्राणि सर्वाणि अर्धमासागुश्च केवलान् सर्वास्ताः सर्वान् ऋधोन् सर्वान् मासान् संवत्सरञ्च केवलं सर्वास्ताः सर्वं भोदगं सर्वं भव्यं यचादोधि भविष्यदि सर्वास्ताः इष्टः भृ उपकाम दुःखा दधे तेनर्षिणा तेन ब्रह्मणा तया देवतया गिरस्वध्रुवासीद रुचां प्राचीमखदी दिगुच्यते दक्षिणामाहुर्त्यजुषामपाराम् अथर्वणामङ्गिरसाम्प्रतीची साम्ना मुदीची महति दिगुच्यते ऋग्भि पूर्वाह्ने दिविदेव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदे नास्तमह्ये महीयते वेदैरस्यून्यस्त्रिभिरेधि सूर्यः ऋग्भ्यो जादगम् सर्वशो मूर्तिमाहुः सर्व गतिर्याजुषीहैव शश्वत सर्वम् तेजःसामरूप्यगुंह शश्वद सर्वगुम्हेदम् ते ब्रह्मणाहैव सृष्टम् ऋग्यो जातम् वर्णमाहुः यजुर्वेदं क्षत्रियस्य कुर्योनिम् समवेदो ब्राह्मणानां प्रसूतिः पूर्वे पूर्वेभ्यो वचये ददूचुः आदर्शमग्निं चिन्वानाः पूर्वे विश्वसृजोमृताः शतं वर्षसहस्राणि दीक्षितास्तत्र मा तप आसीद् गृहपदिः ब्रह्म ब्रह्मा भवत् स्वयं सत्यगुं होतैषामासीद यद्विश्वसृज आसद अमृतमेभ्य उदगायद सहस्रं परिवत्सरान् भूदगुंह प्रस्तोतैःषामासीद भविष्यत् प्रति चाहरद प्राणो अध्वर्युरभवद युतगुं सर्वगुं शेषा सदाम् अपानो विद्वानावृतः प्रतिप्रतिष्ठदध्वरे आर्तवा उपगातारः सदस्यारुदवो भवन् अर्धमासाश्च मासाश्च चमसाध्वर्यवोभवन् अशगुंसद्ब्रह्मणस्तेजः अच्च वाको भवद्यशः रुदमेषाम् प्रशास्तासीद यद्विश्वसृज आसदार्ग्राजानमुदवहद ध्रुवगोवः सहो भवद पजोऽभ्यष्टौद्ग्राह्णः यद्विश्वसृज आसत अपचिदिपोत्री यामयजद निष्ठ्री यामयजत्विषिः अग्नीध्राद् विदुषी सत्यं श्रद्धा हैवा यजत् स्वयं इरापत्नी विश्वसृजाम् आकूतिरपि नढ्ढविः यद्मगुंह क्षुच्चैभ्य उग्रे कृष्णा चाह्वहतामोभे पागेशागुं सुब्रह्मण्यासीदछन्दोयोगान् विजानति कल्पतन्त्राणि तन्वानाहः सगृस्ताश्च सर्वशः अहोरात्रे पशुपाळ्यौ मुहूर्ता प्रेष्या अभवन् मृत्यौस्तदभवद्धादा शमिदोग्रो विशाम्पदिः विश्वसृजप्रथमा सत्रमासद सहस्रसमम् प्रसुतेनयन्तः तदोहजज्ञे भुवनस्य गोपाः हिरण्मयस्य कुनिर्ब्रह्मनाम येन सूर्यस्तपदि तेजसेद्धः पिता पुत्रेण न वेदविन्मनुदे तं बृहन्तं सर्वानुभूमात्मानगुं सम्पराये यश निो मिमा ब्राह्मण से न कर्मण वर्धद नो कनीया तत्मा पदवीत विद्वा न कर्मण लिप्य दे पापक पंच पंचाशत पंचा स्त्रिवृद संवत्सरा पंच पंचाशत पंचा पञ्चपञ्चाशद सप्तदशाः पञ्चपञ्चाशद एकविगुंशाः विश्वसृजा गुंसफससंवत्सरं यतेन वै विश्वसृज इदं विश्वमसृजन् यद्विश्वमसृजन् तस्माद्विश्वसृजः विश्वमेनाननु प्रजायते ब्रह्मणः सायुज्यगुं सलोकता यन्ति यदा समेव देवतानागुं सायुज्यं साष्टितागुं समानलोकतायन्ति यदुपयन्ति ये चैनत्प्राहुः येभ्यश्चैनत्प्राहुः ॐ हरिः ओम्